पादपाठं समध्वराय ओषसो नमन्द दधिक्रावेव शुचये पदाया अर्वाचीनं वसुविदं भगन् रथमिवाश्वागिन आवहन्तु समध्वराय ओषसो नमन्द दधिक्रावेव शुचये पदाय अर्बाचीनं वसुविदं भगन् रथमिवाश्वागिन आवहन्तु समध्वरायो ओषसो नमन्द दधिक्रावेव शुचये वसुविदं भगन् रथमिवाश्वागिन आवहन्तु